स्वराय महादेवाय त्र्यम्बकायत्रिपुरान्धकायत्रिकालाग्निकालाय कालाग्निरुद्राय कालाग्नि नेलकण्ठाय मृत्युञ्जयाय सर्वे स्वराय सदाशिवाय नमो हिरण्यवाहवेशेनान्ये दशां च पदजे नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पदरे नमो नमस्मिन्दराध्युषे मदे वचीनां पदजे नमो नमो बभृशायुजातिनेऽन्नानां नमो नमो हरिकेशाजोपवेतिने पुष्टानां पदजे नमो नमो भवस्य हेत्ये जगदां नमो नमो रुद्राजातदाविने क्षेत्राणां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 नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमशङ्काय च पशुपतजय च नम उग्राय चामाय च नमो अग्रे वधाय च दूरे वधाय च नमो ह्रे जहनी च नमो वृक्षेभ्यो हरिवेशेभ्यो नमस्ताराय नमशम्भवे जमजो भवे च नमः शङ्कराय चमयस्कराय च नमशिवाय च शिवतराय चमस्त्य च गोल्याय च नमः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 मानावधेपितरम् मोदमादरम् वृजामानस्तनुवो रुद्ररीरुषः मानस्तोके मान आयुषि मानो गोषु मानो अश्वेश्वरीरुषः वीरान्मानो रुद्रभामितो विश्वम् तो नमसा विधेमते आरात्ये गोग्नपदपूरुषर्धे क्षयद्वीरायशं नमस्मे ृदङ्गत्वसदम् युवानम् मृगन्न भेमौ वहत्नमुद्राम् दृढाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवन्तु सेनाः परिणा रुद्रस्य हेतुर्वृणक्तपरिद्वेषस्य धर्मस्तनश्वमेध्वस्तो कायतनजा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 नमारुद्धे प्रसविजाय दीक्षेति विजयस्तेदश प्राचेऽर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोऽर्थास्तेऽभ्यो नमस्ते नामृणयम् तुलयम् दृष्मा चतम् भोजम्भे दधामि ओम्बकहे सुगन्ध्यम् भक्तिवर्धनम् मिबन्धनान् मृत्यो आदि यो रुद्रो अग्नो यो आप्सृयवोषधेषद्रो तस्मे भुवनारिवेशदस्मे रुद्राजनवो अस्तु तमुष्टृह्यस्विषुश्रुधम्भाजो विश्वस्य क्षजति भेषज स्यात् यक्ष्वा यम् मे हस्त भगवानयम् मे भगवत्तरा अयम् मे हे विश्वभेशतो जगम् शिवाभिमर्शनः एते सहस्रमयुतम् पाशामृत्यो मर्त्याय हन्तमे ता यज्ञस्य पायजा सर्वा े स्वाहा मृत्यभे स्वाहा ओन्नम भगवते रुद्राय विष्णवे मृत्युर्मे भाहि प्राणानाम् ग्रन्थिरथरुद्रा माविश्रान्तगाः एनान्येनाहाप्याघस्वा नमो रुद्राय विष्णवे पञ्चमन्यष्टमय भामस्तमयमस्तम अम्भस्तमय हेमाचमय महिमाचमय महिमाच मय प्रथिमाच मय वस्माच मे इन्द्राघुजाचमय वृद्ध्वमय वृद्धिश्चमय सत्यञ्चमय श्रद्धा च मय जगच्छ मे धनंज मय वषष्टमय त्रिषष्टमय क्रीडाच मे मोदश्चमय जातञ्चमय जिष्यमाणञ्चमय सूक्तंमय सुकृतञ्चमय वित्तञ्चमय वेद्यं च मय भोतञ्चमय भविष्यचमय सु धञ्जमलध्वं जलध्यस्त मे गृप्पञ्चमे गृत्यष्ट मे मतिष्ठमेऽ